सर्वेषाम् अस्मिन् पाणिनीयव्याकरणवर्गे स्वागतम् येनाक्षरसमाम् न्यायमधिगम्यमहेश्वरात् कृष्णं व्याकरणम् प्राप्तं तस्मै पाणिनये नमः येन धौदाग्यः पुंसा विमले शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः वाक्यकारं वररुजि भाष्यकारं पदञ्जलि पाणीनीसूत्रकार मित्रीगुभ्यों नम धातु द्वितय कनपत्र वयं तत्र प्रथमधातुविज्ञानम् इति करपुत्रे इत्संज्ञाप्रकरणम् इति कार्यं वयम् अधीतवन्तः यदा प्रक्रियावेलायां किं करणीयं प्रथमं धातोः निर्माणार्थं प्रथमसोपानमस्ति इत्संज्ञावर्णानां लोपकार्यं तदेव धातुविज्ञानं एकम् इति करपत्रे आसीत् तदर्थं सूत्राणि सप्त सूत्राणि आसन् अपि च एकं निषेधः सूत्रम् एकं लोपविधायकसूत्रम् तत्सर्वं वयम् अधीतवन्तः तत्पश्चात् धातुविज्ञानं द्वितीयपाकः तत्र किम् अस्ति इति चेत् उपदेशावस्थायां धातोः आदौ सक्षकारः अस्ति चेत् अस्य शकारस्य सह कारादेशे सूत्रेण उत्तम अम ताद उपदेशवस्थाया विदम से षकार सेकारादेश्य अस्थ स तद्रमस्वादे शहास सूत्रम कुतते ष्टाध्याय सेथम पदेष्टितम सूत्रमस्त अस्त्रेक वातिकमे निमितता नैमित्क अयर तदर्थम पूर्व सिद्धम सूत्र विषय अभी वह दृष्ट तत्र त्र सूत्रीक तोर मध्ये बलाबलचिंदनमंद तकं धाते अठुना सूत्रो मध्ये क्य सूत्र प्रथम प्रश्न तावाते सह सूत्र संख्या कुत षष्टाध्यायस्य प्रथमपादस्य त्रयोषष्टितमसूत्रम् इति उक्तं परन्तु स्थुनाष्टु इति सूत्रं कुत्र वर्तते अष्टमाध्यायस्य चतुर्थपादस्य नवचत्वारिंशत्तमसूत्रमस्ति इति कृत्वा किं भवति ष्ठुनाष्टु इति सूत्रेण यत् कार्यं कृतं तत् कार्यम् कस्य कृते धात्वा देः सः सः इति सूत्रस्य कृते अतः तं सूत्रम् एतत् सूत्र तं तेन सूत्रेण कृतम् कार्यम् अस्य दृष्ट्या असिद्धम् इति वक्तव्यम् इति कृत्वा एव किम् उक्तम् अत्र निमित्तापाये नैमित्तिकस्यापि इति सूत्रेण किं भवति इति अत्र यदा षकारस्य था यु अस्त तकार आसा सकार से षकार जाता तदनीम ठकार से प्रसक्ति अस् परकार सकार जाते निदिप जाएता अांशरूपेण वर् तत्र नकारजाः इति उक्तं खलु नकारजाः के के चेत् वर्णाः नकारजाः इति उच्यते यत्र उपदेशावस्थायाम् एते वर्णाया वर्णाः पश्चात् दृश्यते उपदेशावस्थायां कीदृशं वर्तते अत्र नकारः एव आसीत् परन्तु यदा वयं पश्यामः धातुपाठं तत्र सर्वत्र एक वर्णा दृश्य बौध्यमुते अंजु अंजु एक दृश्य है खलु त्रूत्र आगछति चकार अस्ती सन्धिकार्यूला अकार से अस्य आस चवकीयपंचम आदेशू आगछतिमर्तव्य द्वितयकार्यमस्व कि उपदेश अस्त तथा नकार, नकार, नकार आदेश धात्वादेहे नः नः उपदेशे इति सम्पूर्णसूत्रम् अस्मिन् अस्मिन् तु स्पश्चात् अत्र एव नत्वम् इति वदामः खलु नकारस्य आदेशः इति उक्तं तर्हि अस्य कृते किं नाम नत्वं न त्वम् इति अत्र लिखितमस्ति अत्र नकारादेशः भवति इति द अव नौ नूत्रेण एक कार्यम तपरीत दशाभ्या तेन नकार से उक्त ताद उपसर्गा अभी न उपदेश उपसर्गस्ता परस न उपदेश धादो नकार से समासे असमासे अपि इति उपदेशे यदे जाधवः नकारादेयः आसीत् अस्य इदानीम् उपसर्गः अस्ति चेत् समासः भवति वा नवा वा नकारादेशः भव भवेत् इति अत्र उक्तमस्ति उदाहरणं परिनीतितं परिणयति इति आगच्छति नकारः आगच्छति एतद् वयं न पठितं खलु तृतीयबिन्दु तस्मात् पठिष्यामः इति पठितं चेदपि चिन्ता मास्तु ततः भगिनी भगिनी एव आरम्भं करोतु सप्तम अध्यायस्य प्रथमपादस्य अष्टपञ्चाशत्तमसूत्रम् अष्ट अष्टाशीति सूत्रेण अष्टाशीतिः नास्ति भगिनि अष्टाशीति नास्ति पञ्चाशत् खलु अष्टपञ्चाशत् इति सूत्रेण गिरितधातोः नुम् आगमो भवति इदित् इत्युक्ते इत् यस्य सः तत्र प्रथमयित् नाम हृस्व इकारः द्वितीय इत् नाम इत्संज्ञा हृस्व इकारस्य इत्संज्ञा भवति चेत् यस्य यस्य स दातु यस्य सः इदि पूर्वी तस्य इदितः इदितः षष्ट्या षष्ट्यन्तम् प्रथमान्तम् धातोः षष्ट्यन्तं विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णम् इदितो धातोः नुम् तर्हि यः धातुः इदितः अस्ति तस्य नुमागमः भवति इति इदं सूत्रं सूचयति बहवः इदित धातवः सन्ति यत्र कुत्रापि धातोः हृस्वैकारस्य इच्छञ्जा भवति तस्मिन् धातोः नुमागमः भवति एव स धातुः इदित् अस्ति अतः नमागमः यथा निधि नित् धातुः नो नः इति सूत्रे इत्यनेन निद् निद् भवति अतः अयं धातुः इदित् किमर्थम् इत्युक्ते इकार अनुस्वार इकारसन्धि अनुनासिक इकारस्य इत्संज्ञा भवति यथा इदि धातुः अस्ति नाम ह्रस्व इकारः इत्संज्ञकः यस्य सः निद् धातोः इत् इत् अस्ति इति कारणेन नुमागमः भवति अधुना निद् धातोः नाम कुत्र नित्संज्ञकः यस्य सः निर्धातोः इति इत अस्ति इति कारणेन न आगमः अधुना अदु, निद् धातोः नुम् कुत्र आयाति नुम् आगमः मित् अतः अयं नकारः धातोः अन्तिमस्वरात् परे आयाति इति अग्रिमं सूत्रं वक्ति नुमम् नुम नुम् इति आगमे हलन्त्यम् इति इत्यनेन मकारशैत्संज्ञा इत भवति अतः मित् अस्ति उपदेशे जन्नासिकैत् इत्यनेन उकारसैत्संज्ञा इत भवति न इति अवशिष्यते मिदतोत्यान्तपर परः इति सूत्रेण प्रथम अध्याये प्रथमपादे सप्तचत्वारिंशत् सूत्रेण यः मित् अस्ति अचुवर्णेषु अत्यान् परः अन्त्यात् परः आयात् अपि च अयं मित् वर्णः समुदायस्य तस्य अन्तिम अन्तिम अवयवो अवय अवयवो भवति सः मित् भूर्वी समासः मित् प्रथमान्तम् अचः षष्ट्यन्तम् अन्त्यात् पञ्चमान्त्यं परः परः प्रथमान्तम् अनेकमिद पदमिदं सूत्रम् आतन्तौ टकितौ इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः अस्मिन् सूत्रे अचः षष्टिविभक्तौ अच अन्त्या इत्यस्य अर्थः निर्धारणम् नाम सर्वेषु स्वरेषु अन्तिम अन्तिमः तस्मात् अत्र अचः एकवचने यतो हि अनेन अच् जातिः इति इष्टम् आशयः बहुवचनं निर्धारणसप्तमी बहु बहुषु एकं जात्याख्यायामेकस्मिन् बहुवचनम् अन्यतर अन्यतरस्यां प्रथमा अध्याये द्वितीयपादे अष्टपञ्चाशीतिसूत्रेण जात्याख्यायाम् एकस्मिन् बहुवचनं आ, अन्य अन्यतरस्यां तर्हि वचः एकवचने चेदपि सार्विक बहुवचनार्थक इत्यञ्च षष्ठीविभक्ति अर्थः स्थाने इति न षष्ठिस्थानयोगा प्रथमाविभक्ति प्रथम अध्याये प्रथमपादे नवचतुर्विंशति इति सामान्यम् इदं सूत्रं विशेषः अनुवृत्तिसहित अचः अत्यान् अंतः वरः अन्तः पर्याप्तं <laughs> भगिनी धन्यवादः धन्यवादः <laughs> म्यूट् करोतु अत्र इदानीं कः विषयः आगतः पूर्वं नत्वं कुत्र आगच्छति इति उक्तं परियोगः नी इति धातुः अस्ति ीनि प्रापणे इत्यत्र णि इत्यस्य नकारः भवति तर्हि पुनः यदा परि इति उपसर्गः आगच्छति तर्ह तर्हि परिणयति इति रूपम् इदानीं किम् अस्ति तस्य नौनः इति सूत्रस्यापि प्रसिद्धिः आसीद अनेन न इति आगतम। परन्तु पुनः अत्र उपसर्गः का उपसर्गवशात् नकारः आगच्छति इदानीं किम् अस्ति इति चेत् मागमविषये पठः निति इति एकं धातुः अस्ति नकारः प्रथमवर्णः नकारः द्वितीयवर्णः अत्र यदा इत्संज्ञाकार्यं नत्वकार्यं सर्वं भवति चेत् उपदेशावस्थायां नकारः अस्ति इति कारणात् नो नः इत्यनेन नकारादेशः भवति तर्हि निद् इति अस्ति अन्तिम अकारः अनुनासिकः अस्ति इति कारणात् अनुनासिक अकारस्यापि यत् संज्ञा भवति उपदेशे अच् अनुनासिक इत् इति सूत्रेण खलन्त्यम् इत् इति सूत्रस्य प्रसक्तिः अत्र नास्ति नित् इति एव नित् इति अस्य परिवर्तनं जातम् इदानीम् अस्माकं कृते धातुः अस्ति निद् अत्र उपदेशावस्थायाम् इकारस्य इत्संज्ञा भवति यतोहि औपदेशिक अवस्थायां निधिः इति आसीत् उपदेशे अच् अनुनासिक इति इत्यनेन अन्तिम अचुवर्णस्य इत्संज्ञा भवति इति उक्तम् अयम् अचुवर्णः अनुनासिक इकारः आसीत् ह्रस्व इकारः अस्य एव इत्संज्ञा जाता तर्हि इदानीम् इकारस्य इत्संज्ञा जाता इति कारणात् अयं धातुः इदित् अस्ति इति तर्हि इदितः धातोः नुम् इति अस्ति अस्ति इदितः नाम इत् इदः इदितः इत् इदः यस्य इत इत सः तदेव इदितः इदितः इदितः धादोः नुम् नुम् इत्युक्ते आगमः नुमागमः इदितः धादोः नुमागमः इदानीं नुम् आगमः भवति इति उक्तं मित् इति अस्माकं धातुः अस्ति कुत्र आगच्छति इत्यस्मिन् विषये भिन्नसूत्रमस्ति तत् अग्रिमसूत्रमस्ति मितिचोद्यात् परः मित् आगमः मित् चेत् मकारः इत् यजसः मित् तर्हि नु इत्यत्र मकारः अस्ति यदा हलन्त्यम् इति सूत्रेण मकारस्य इत्संज्ञा भवति तर्हि नु इति एव अवशिष्यते अत्र उकारः उच्चारणार्थम् अस्यापि इत्संज्ञा भूत्वा लोपः भवति केवलं नकारः एव अवशिष्यते अत्र मकारस्य इत्संज्ञा भवदी, मकारह आगमः मित सूत्रेण वदामः, मित इत् आगमः आग मित् वाला मित् आगम कुे मितचोंद अंत्या अज पर उत्त मित् मकार इकार दकार क्षम्य नित् नकार इकार दकार अंतिम अचुर्ण कहतरम यहा है अस्ये अतिम अचुर्ण अर तत्पात् अर्थ तर्हि निन्द् इति आगच्छति नकारः इकारः पुनः नुमागमस्य नकारः दकारः निन्द् इति रूपम् सिद्ध्यति तर्हि इदितः धातोः नुम् आगमः भवति इदितः इत्युक्ते इत् इत् यस्य इत सः यस्य धातोः ह्रस्व इकारस्य इत्संज्ञा भूत्वा इदित् ये संज्ञा प्रनो तुव सूत्रं इत इत कार्यं कौदेश विषे प्रथम की नाम ह्रस्वकार द्वितय इत विधायक कार्य उच्य ह्रस्वकार से सह धात्त् वादा इत इति बहु स इति सः इदित् इति इदितः इति पदम् इदित् इति प्रातिपदिकस्य षष्ट्यन्तम् अस्ति इदितः हलन्तपदमस्ति इदित् इति नुम् इत्यत्र प्रथमान्तं धादोः पुनः षष्ट्यन्तम् इदितः धातोः विशेषणविशेषभावः अस्ति त्रिपदम् इदं सोत्रं। सोत्रं सूत्रं सूत्रं स्वयं सम्पूर्णम् अत्र कोऽपि अनुवृत्तिः नास्ति इदितः धातोः नुम् एतत् सूत्रं दृष्ट्वा वयं जान वयं ज्ञातुं शक्यते कस्य नुमागमः भवति इति इदितः धातोः इदिर् धातुः धातौ यदि ईश्वरस्व इकारः भवति चेत् आगमः भविष्यति धातुः इति अस्ति चेत् तस्य नुमागमः भवति इदम् सूत्रम् सूचयति बहवः इदितः धातवः सन्ति यत्र कुत्रापि धातौ ह्रस्य इकारस्य इत्सञ्ज्ञा भवति तस्मिन् धातौ नुमागमः भवति एव सः धातुः इदि अस्ति अधः नुमागमः यतावदा कस्यापि सन्देहः अस्ति चेत् नास्ति चेत् अग्रे पठामि यथा निति एतद् अहम् उक्तवती नौनः इति सूत्रस्य प्रसक्तिः अस्ति किमर्थम् इति चेत् नित् नकारः आदिमवर्णः तर्हि उपदेशे आदौ नकारः अस्ति चेत् नौनः इति सूत्रेण नकारस्य नकारः सूत्रे भवति इदानीं निधि इत्युत्र निन् निधि इति भवति निधिः आसीत् निति इति भवति निधिः इति भवति तर्हि अत्र कस्य कस्य इत्संज्ञा भवति इति चेत् अन्तिमा प्रथमं किं भवति इति चेत् युत्संज्ञाकार्यमेव भवति पश्चात् एव नौनः इति सूत्रस्य कार्यम् यतोहि प्रथमपाठे वयम् इत्संज्ञाप्रकरणम् एव पठितवन्तः अयं कार्यं प्रथमं भवति तर्हि अनुनासिककारस्य वित्संज्ञा भवति पश्चात् धात्वादेशः नकारस्य नकारः भवति निन् नित् इति रूपं नित् इति इदि धातुः इति कारणात् अत्र नुमागमः भवति अधुना किं रूपं निन्द् इति अस्माकं सिद्ध धातुरूपं वर्तते तर्हि अय नुम् आगमः मित् अस्ति तादृश मित् इति आगमः कुत्र भवति अङ्कस्य कुत्र भवति इति चेत् मितचोद्यात् परः यः मित् अस्ति सः अचुवर्णेषु अन्त्यात् परः आयाति अचुवर्णः वयं जानीमः खलु ऐन् एवम् ऐ औच् पर्यन्तं यानि वर्णानि वर्तते तेभ्यः अचिति नाम्ना ज्ञायते तर्हि तेषाम् अचिदिसंज्ञा तेषु अन्यतमः यत्र वर्तते तत् तत् तत परः तत् तेषाम् पश्चात् तत्पश्चात् तेभ्यः पश्चात् आयाति यम् आगमः अपि च अयम् मित् यस्य वर्णः समुदायस्य तस्य अन्तिम अवयवो भवति इत्युक्ते मित् इति आगमः कुत्र भवति अच् वर्णसमुदायस्य अन्त्य अवयवरूपेण आगच्छति पचात् आगच्छति इति अर्थः मकारः तेच् सः सः मित् इति बहुव्रीहिसमासः अचः इति मित् मितचोन्त्यात् परः इति सूत्रम् अत्र मित इत्यस्य अनन्तरम् अचः इति अस्ति तत् पदं षष्ट्यन्तं पदमस्ति अच् इति पदस्य षष्ट्यन्तम् अचिदि हलन्तमस्ति अस्य षष्ट्यन्तं पदमस्ति अजः अन्य अन्त्यात् अन्त्यात् परः इति अस्ति तर्हि अन्त्यात् इति पञ्चमीनिमित्तमस्ति पञ्चमी अन्त्यं पदमस्ति चेत् कार्यं कुत्र भवति परे भवति प्रथम परः इति प्रथमान्तं पदमस्ति अनेकपदम् इदं सूत्रम् अद्यन्तौ टकितौ अस्मिन् सूत्रे अनुवृत्तेः सन्ति इत्यस्मात् अन्धः इति पदम् अनुवृत्तम् अस्मिन् सूत्रे अजः षष्टी विभक्तौ अजः अन्त्यात् इत्यस्य अर्थः निर्धारणम् अर्थः न नाम्ना नाम सर्वेषु स्वरेषु अन्तिमः तस्मात् पश्चात् एव इति अर्थः अत्र अजः एकवचने यतोहि अनेन अच् जाति इति इष्टम् अवयव अवयव आशयः बहुवचनम् निर्धारणम् सप्तमी बहुषु एकम् अत्र किमर्थम् एतत् सर्वम् उच्यते इति चेत् एकम् वार्तिकमस्ति जात्याख्यायाम् एकः एकस्मिन् बहुवचनमन्यतरस्याम् अजः इति एव सूत्रे अस्ति अजः इति प्रथम एकवचने उक्तमस्ति तर्हि सप्तमी षष्टिविभक्ति एकवचनशब्दरूपमस्ति अजः इति तर्हि एकः एव अचुवर्णः वा इति न अच् पश्चात् आगच्छति इति उक्तं खलु अतः एव अत्र प्राधान्यम् अन्यत् किमपि कार्यम् नास्ति अजः पश्चात् इति वक्तव्यम् तर्हि अच् इति अत्र वक्तुम् इष्ठा तदेव जाति आख्याया आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् जाति आख्यायं एकस्मिन् बहुवचनम् अन्यतरस्याम् तर्हि अजः एकवचने चेदपि सार्वत्रिक सार्वत्रिकबहुवचनार्थकः अजः इति एकवचने उक्तम् चेदपि अथ् जाति एव अत्र बहुवचनार्थकः इत्थञ्च षष्टिविभक्तेः अर्थे स्थाने इति न षष्ठी स्थाने योगाः इति सामान्यम् इदम् सूत्रम् विशेषः इत्युक्ते शर... इत्थञ्च षष्टिविभक्तेः स्थाने इदि अर्थः सामान्यः षष्टिस्थाने योगः इति यदा वदामः अत्र योगः इति पदम् आगच्छति तत्तु विशेषः विशेषसूत्रम् अनुवर्तिसहितसूत्रं किमस्ति <coughs> मित्रे अजः अनुवृत्ति अन्त्यात् परः अन्धः इति अत्र कस्यापि सन्देहः अस्ति चेत् पृच्छतु इत्युक्ते मितः मित् परः इति अस्ति खलु अत्र अजः इति पदं विशेषेण उक्तमस्ति परन्तु पूर्वतः सूत्रे सामान्यसूत्रमस्ति षष्टियोगे स्थाने षष्टिस्थाने योगः इति क्षम्यतां भगिनी निरुचोन्त्यात् परः एतत् सूत्रमेव न अवगतं भगिनी अत्र किमपि कार्यं नास्ति केवलं मित् इति अस्माकं नुम् इति आगमः मित् अस्ति वा न वा नुम् आगमः तत्सर्वं इदितो नुम् धातोः अनन्तरं मम प्रश्नस्य उत्तरं वदतु मित् इति आगमः नुम् इति आगमः मित् अस्ति वा न वा मित् इत्युक्ते किम् मित् इत्युक्ते इत्य। मकारस्य इत् नुम् आगमे मा मकारः अस्ति वा न वा नास्ति नुम् आमास्ति नुम् नुम् इति आम् आम। अनुबन्धलाभानन्तरं नुम् इति आगमे किम् अवशिष्यते एतत् पङ्क्ति पठतु क्षम्यताम् एतत् नुम् इति आगमे नुम तद् वा भगिनि न न इदानीम् अदम् अहं हैलैट् कृतवती खलु दृश्यते वा एकनिमिषं भगिनि स्क्रीन् पश्यतु आगमे हलन्त्यं तद् वागमे हलन्त्याम् इति आगमे हलन्त्यम् इत्यनेन मकारस्य इत् संज्ञा इत् इत्यनेन उकारस्य इत् न इति अवशिष्यते खलु तर्हि न एव अवशिष्यते इदानीम् अयन्नकारः कुत्र आगच्छति इति कथं वा ज्ञातुं शक्यते आगमः खलु न तु आदेशः कस्य स्थाने इति न वक्तुं तर्हि कुत्र इति प्रश्नः अस्ति खलु यत्र यत्र आगमः भवति तत्र तादृशप्रश्नः वर्तते एव यत, यद् यदि आजन्तौ टकितौ इति सूत्रस्य अपि कार्यं किमर्थम् यदि आगमः कित् अस्ति चेत् कुत्र आगच्छति अन्धे आगच्छति यत्र वृत्यस्य अन्धे वा अङ्कस्य अन्धे वा इति सूत्रं दृष्ट्वा वक्तुं शक्यते यदि तकिताव। टित् अस्ति चेत् आदौ वर्तते इति उक्तम् तद्वत् मित् अस्ति चेत् अन्त्यात् अजः परः इति उक्तमस्ति अन्तिम अच्वात् परे आगच्छति अवगतम् एकं एकं सूत्रम् अस्ति आद्यन्तौ टकितौ आन, अनन्तरं आ... मितचोन्द्यात् परः मितचोन्त्यात् परः मितः द्वयमपि परिभा परिभाषासूत्रमेव परन्तु तेषां कार्यं कुत्र कुत्र भवति इति अवगतं खलु इदानीं कित् अस्ति चेत् अस्ति चेत् आदौ योजयामः नकारम् अत्र अट् कुप्वाङ् वा एपि इति एकसूत्रमस्ति खलु न न किम् इति चेत् न अस्माकं लङ्लकारे एकम् अट् इति आगमः भवति खलु अडागमः अयम् अकारः अट् इति अस्ति खलु अत्र टकारस्य संज्ञा भवति वा न वा आं भवति एव तर्हि अकारः एव अवशिष्यते आदौ तत् आदौ तर्हि टित् अस्ति इति कारणात् आद्यन्तौ टकितौ इत्यनेन टित् आगमः आदौ पत्यस्य आदौ धादोः आदौ अवगतं वा इदानीं ता इति प्रत्ययः अस्ति खलु पठितः अत्र ता कृता इति अस्ति खलु ककारः ककारः तद् कित् अस्ति वा न वा आम् अस्ति भगिनि तर्हि तद् कुत्र आगच्छति तद्वद् इदानीं मितचोद्यात् परः इति अस्ति खलु अयम् आगमः मितागमः अस्ति चेत् अन्त्यात् hmm. अजः परः इति उक्तं तर्हि नित् इति धातौ अन्तिम अचुर्णः कः नित् नकारः इकारः दकारः तदेव अन्तः इकारः इकारस्य अनन्तरं परः इति उक्तं तर्हि इकारस्य अनन्तरम् अयम् आगमः भवति अस्तु भगिनि सम्यक् अनन्तरम् अत्र अस्ति अनन्तरम् आगच्छति अस्तु सम्यक् भगिनी कस्यापि प्रश्नः अस्ति चेत् पृच्छतु प्रश्नः कथं करणीयम् इति अपि ज्ञातव्यम् आं भगिनि अत्र टकितौ अस्ति अत्रैव टित् कित् द्वयोः अपि भवति वा आम् आम् तद् कुत्र अस्ति आगमः टित् अस्ति परन्तु ता इति कुत्र कुत्र आगच्छति एतादृशपाठः अग्रे आयास्यति दिखो। कोऽपि दिखो। क्लेशः नास्ति परन्तु सम्यक् अवग आवगे अवगमनं भवति चेत् बहु लाभकरमेव तर्हि अग्रे भगिनि बगिनी एव पठतु अस्मिन् सूत्रे इति अस्ति खलु तदस् अस्मिन् सूत्रे नुमागमः यस्य वर्ण समुदायस्य आगमः तस्य अन्तिम अवयवो अन्तिमावयवोः भवति अन्तिमावयवो भवति इत्युक्तम् अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे ज्ञानशब्दः बहुवचने ज्ञानानि भवति ज्ञानयोग ई क्षीप्रत्ययः लशक्वतद्धिते इत्यनेन इ अवशिष्यते एतत् न अवगतम् भगिनी शि प्रत्ययः वा अहं वदामि तत् परिषदं सम्पूर्णं पठतु मिद मिदचोन्त्यात् परः इत्यनेन नुमागमः ज्ञानयोगन्न योग इ अयं नकारः ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिमावयवः इति कारणेन सर्वनामस्थाने चासम्बन् सम्बुद्धौ सम्बुद्धौ च सम्बुद्धौ इत्यनेन अंगस्य उपादायाः दीर्घः ज्ञानान् युग इ ज्ञानानि यदि नकारः ज्ञान इति अङ्गस्य अन्तिमवयवः भविष्यत् अकारः उपधायां न भविष्यत् सर्वनामस्थाने चा सम्बद्धौ इत्यनेन अकारस्य दीर्घादेशः च न भविष्यत् अस्मिन् सूत्रे नुमागमः यस्य वर्णसमुदायस्य आगमः तस्य अन्तिम अवयवः भवति इति उक्तम् एतद् वयं दृष्टवन्तः यस्य वर्णसमुदायस्य आगमः अयं नुमागमः तर्हि इति वर्णसमुदायस्य आगमः आग आगमः इति वयं जानीमः तस्य अन्त्य अवयवरूपेण आगच्छति इति अस्य कः इति चेत् इति स्पष्टतया इदानीम् अस्य ज्ञा ज्ञानार्थम् न्या, अत्र ज्ञानशब्दः दत्तमस्ति ज्ञानशब्दस्य रूपसिद्धि कथं ज्ञाना इति एव प्रातिपदिकमस्ति बहुवजने ज्ञानानि इति पदम् आगच्छति तर्हि ज्ञानायोगः इ किमर्थम् इति चेत् इति अस्ति शोः शि इति एकसूत्रमस्ति अनेन सूत्रेण अत्र प्रथमाविभक्ति बहुजनस्य द्वितीयाविभक्ति बहुजनस्य च स्थाने विद्यमानस्य प्रत्ययस्य शी इति आदेशः भवति इति उच्यते तर्हि इदानीं शि इति दृश्यते खलु अयं शि अनुबन्धलोपानन्तरम् इकारः एव अवशिष्यते यतोहि शकारस्य दशः अधर्ते इत्यनेन उत्संज्ञा भवति अनन्तरं तस्य लोपः इत्यनेन लोपः अपि भवति इकारः एव अवशिष्यते इदानीं ज्ञानायोगः इ तत्र यदा प्रत्ययः परे आगच्छति तदानीं मितचोण्ड्यात् परः ज्ञानायोगः न इति अस्ति खलु यतोहि इदानीं षित् इति यदा जातम् अत्र इकारः एव अवशिष्यते नकारः अत्र किमर्थं ज्ञानमागमः इति चेत् ज्ञानशब्दस्य <laughs> <नाने शित तस्या। laughs> <laughs> ोः शि इत्यनेन किं भवति नपुंसकलिङ्गात् अत्र शि इति आदेशः भवति शि इत्यस्य अनुबन्धलोपानन्तरम् इ तर्हि ज्ञानायोगः इ ज्ञानी इति अस्ति खलु इकारः अस्ति खलु अस्य इकारस्य ज्ञानी इति यदा भवति तत्र मध्ये एव न्युमागमः भवति एकेन सूत्रेण इदानीं दृष्ट्वा भगिनी mm. अत्र ज्ञानयोग क्षीप्रत्यय योजयामः चेत् अत्र शकारस्य लषकत इति सूत्रेण इ अवशिष्यते तु ज्ञानयोग इ भवति ज्ञानी इति अत्र मिदचोन्त्यात् परः इति सूत्रेण नुमागमः अत्र ज्ञानयोग न योग ई भवति एतावत्पर्यन्तम् अवगतं भगिनि गमः केन सूत्रेण इति अन्तिम अचुवर्णस्य इति करणं करणं चेत् ज्ञान योग ई योगन् न आग, आगन्तुं वर्तते किल ज्ञान योग ई आल्सो अचुवर्ण अत्र अत्र केन सूत्रेण इति चेत् तदर्थम अहम उक्तवती किचि शुणो वादा ज्ञानायोग स्थित ज्ञानायोग किमत नपुंसक जलझा एक सूत्रमस्ती अने सूत्रेमस्थ अंगागमित एक सूत्र से अथ सर्वनामस्थानम् इति चेत् प्रथमाविभक्ति बहुवचनं द्वितीयाविभक्ति बहुवचनस्थानमेव अत्र सर्वनामस्थानं वा अत्र भिन्नसंज्ञा एव अत्र पारिभाषिकशब्दः एव ओके तदेव क्लेशः षि सर्वनामस्थानम् इति एकसूत्रमस्ति अतः षि इति आदेशः किमर्थं श्रुतम् इति चेत् एतदर्थमेव शि सर्वनामस्थानम् इति एकसूत्रं तर्हि षी इति किम् इति ज्ञातव्यं तत्र जस् जशोः षि इत्यनेन प्रथमाविभक्ति बहुजनं द्वितीयाविभक्ति बहुवजनम् अनयोः सर्वनानस सर्वनामसंज्ञा प्राप्नोति स्थानसंज्ञा तर्हि पश्चात् भवति षि इति सर्वनामस्थाने च असम्बुद्धौ इति एकसूत्रम् अस्ति तत्र एव उभधा दीर्घः भवति भवति खलु अनेन सूत्रेण सर्वनान सर्वनामस्थाने च असम्बुद्धौ इति सूत्रेण नपुंसकस्य जलजः इत्यनेन अजन्तस्य अङ्गस्य सर्वनामस्थाने परेमागमः इति अस्ति तर्हि ज्ञानी इत्यत्र अजन्तमङ्गमस्ति इदानीम् अत्र परे नुमागमः ज्ञानिन् इति अस्ति ज्ञानशब्दः अस्ति खलु नकार अकारान्तशब्दः तर्हि अत्र ज्ञाना इत्यत्र अकारान्तशब्दः अस्ति अयम् अजन्तमङ्गमस्ति अनेन किं भवति नुमागमः भवति सर्वनामस्थाने च असम्बुद्धौ सूत्रम् अत्रैव अस्ति क कर, करपत्रे अस्ति इत्यनेन अङ्कस्य उभता दीर्घाः दीर्घः ज्ञानान् जल... इति भवति नुद्धौ मीनिङ्ग् दीर्घ इति असम्बुद्धौ दीर न सम्बुद्धिस्थाने इति च असम्बुद्धौ इत्युक्ते सम्बुद्धिस्थाने अत्र सर्वनामस्थाने च असम्बुद्धौ इत्युक्ते सर्वनामस्थाने अपि च अन्यत्र यदा साक्षात् सम्बोधना अस्ति खलु तत्रापि सम्बोधनम् उच्यते खलु हे mm. राम अत्रापि तदेव सम्बुद्धौ इति सम्ब सम्बोधनायामपि बहुवचने द्विवचने अस्ति बुद्धौ तर्हि अत्र उपधादीर्घः आ... इति अनुवृत्तिसहितं सूत्रम् आगच्छति अत्र उपधादीर्घः भवति नपुंसकस्य जलजः इत्यनेन एव नुमागमः विधीयते तत् सूत्रम् अत्र लिखतु भवद्भिः पुनः वदतु नपुंसकस्य जलजः सेवेन् पाय्ण्ट् वन् पाय्ण्ट् सोपानानि एवं ज्ञाना योगः नुं योगः इ अत्र एव नपुंसकस्य जलजः इति सूत्रस्य प्रसक्तिः अनेन अङ्कस्य परे नुमागमः भवति खलु अजन्त अङ्कस्य अचूर्णस्य परे नुमागमः तर्हि ज्ञानायोगः न इति आगच्छति इन् इति आगच्छति भगिनी किमपि श्वेतफलकं तादृशं किमपि अस्ति चेत् नोट् अहम् एतद् गणे प्रेषयामि चिन्ता आमां कृपया भगिनी तदेव च असम् असम्बुद्धौ असम्बुद्धौ इति अस्ति च असम्बुद्धौ इति असम्बुद्धौ इति भागमिदानीम् अस्माकं कृते नास्ति अस्माकं कृते सर्वनामस्थानमेव अस्ति खलु अहमुक्तवती जस्जशोः शसोः जशोः अग्रिम अस्ति अत्रैव करपत्रे पश्यतु अधौ भागे अस्ति स्थाने शि आदेशः भवति अस्य एव शि सर्वनामस्थानमित्यनेन सर्वनामस्थानसंज्ञा सर्वनामस्थाने च असम्बुद्धौ इत्यनेन उपधादीर्घः केवलम् अत्र कः सूत्रं नास्ति इति चेत् नपुंसकस्य जलजः इति सूत्रमेव अत्र नास्ति अन्यत् सर्वत्र वर्तन्ते अनेन नुमागमः विधीयते इति अस्ति इति कारणात् न तर्हि अस्मिन् सूत्रे नुमागमः यस्य वर्णसमुदायस्य आगमः तस्य अन्तिम अवयवे भवति इति उक्तम् अस्य अर्थः कः इति स्पष्टं भवति सुबन्धप्रकरणे ज्ञाना शब्दः बहुवचने ज्ञानानि भवति ज्ञाना योगः इ षी प्रत्ययः लशकोदर्थ्यते इत्यनेन इ अवशिष्यते मितचोन्त्यात् परः इत्यनेन नुमागमः इदानीं नुमिति आगमः नकारः एव अवशिष्यते तर्हि कुत्र भवति ज्ञाना इत्यस्य अकारस्य अनन्तरं नुमागमः नुमागमस्य अनन्तरम् इ इति सुबन्धप्रत्ययः तर्हि ज्ञाना योगः इ ज्ञाना नि इति भवति अयं नकारः ज्ञाना इति अङ्गस्य वर्णसमुदायस्य अन्तिम अवयव इति कारणेन सर्वनामस्थाने च सम्बुद्धौ इत्यनेन उपधायः दीर्घः इदानीम् अन्तिम अन्तिम अकारः अन्त्यवयव इति कारणात् अस्य उपधायाम् इदानी किमर्थम् इति चेत् नकारस्यमागमस्य पूर्वम् यः आकारः वर्तते तदेव उपधावर्णः अत्र अन्त्यात् अजः पर क्षम्यताम् उपता इत्युक्ते तर्हि इदानीं ज्ञानन् इति एव स्थितिः अत्र प्रत्ययस्य योज योजनं न कृतं तर्हि ज्ञानन् इत्यत्र अकारः उपतावर्णः अन्त्यात् पूर्वम् अन्तिमवर्णात् पूर्वम् एकः वर्णः अस्ति तदेव उबधा इदानीम् अकारः उभधा अस्य दीर्घत्वं भवति तर्हि ज्ञानान् इति रूपम् पश्चात् प्रत्यस्य योजनं ज्ञानानि इति भवति यदि नकारः ज्ञाना इति अङ्गस्य अन्तिम अवयवः न अभविष्यत् ज्ञाना इति शब्दस्य यदि नकारः ज्ञाना इत्यत्र अङ्गस्य अन्तिम अवयवः न अभविष्यत् अकारः उभ उब... अकारः उभधायां न अभविष्यत् तर्हि सर्वनामस्थाने च सम्बद्धौ इत्यनेन अकारस्य दीर्घादेशः च न भवति यदि न ज्ञाना इत्यत्र नकारः अस्ति खलु अत्र <coughs> न इति ज्ञाना इति शब्दस्य अनन्तरम् एकः नकारः आगतं तस्मिन् विषये एव इदानीं ज्ञाना इति अङ्गस्य अन्तिम अवयवः इति उक्तं ज्ञाना इत्यस्य अनन्तरं नुमिति आगमः यत् तस्य विषये तर्हि अद तदानीमेव ज्ञाना इत्यत्र आगच्छति तर्हि उभतायां वर्तते स्वरवर्णः अस्ति इति कारणात् अस्य दीर्घत्वम् अपि भवितुम् अर्हति अन्यथा न इदानीम् अत्र कस्यापि सन्देहः अस्ति चेत् पृच्छतु अवगतं वा अथवा क्लेशः अस्ति वा वदतु कोऽपि वदतु इदानीं इदानीम् अवगतं किञ्चित् किञ्चित् किन्तु पुनः पुनः पठनीयं भगिनि एतानि सूत्राणि यद् अत्र उक्तं भगिनि अत्र यद् एतत् सर्वम् उक्तं खलु अत्र आगमः विषये तदस्माकं पाठे इदानीं चिन्ता मास्तु तर्हि अस्माकं विषयः कः मित् इति आगमः भवति तावदेव वा आमां तद् पर्यन्तम् अवगतम् आ तदेव विषयः अन्यत् सर्वं महोदयेन अत्र सर लिखितम् इतोपि स्पष्टतया अवगच्छतु इति कृत्वा परन्तु तद् बहुक्लेशः जातः तत्र ज्ञाना इति तदेव तदेव कथम् आगतम् इति किञ्चित् एव प्रक्रियाविषये अग्रिया प्रकरणप्रकरणविषये भेदः प्रकरणं पठिष्यामः चेत् अत्र सौलभ्यं वर्तते परन्तु प्रक्रिया दिश्या पश्यामः चेत् अत्र क्लेशः भवति सूत्रसङ्ख्या कुत्र यत्र कुत्रापि भवति सूत्रस्य अर्थः वयं न सम्यक् न ज्ञातं चेत् अत्र क्लेशः भवति अतः प्रथमं सूत्रं पठिष्यामः पश्चात् अत्र प्रक्रिया कथम् इति पश्यामः इदानीं परः इत्यनेन अन्त्यात् अजः परः मित् आगमः भवति Hmm, सर्वनामचाने स्थाने च असम्बुद्धौ इत्यनेन उपधा दीर्घः भवति शशोः षि इति नवंशकस्य अङ्कात् स्थाने षि आदेशः भवति एतत् सर्वं चिन्तयतु अन्यत् किमपि अन्यत कि न पठितम् प्रश्नः अत्र उक्तम् ज्ञानयोगः तत् पठनीयम् इदानीं ललिका भगिनी ललिताभगिनी अस्ति खलु ललिता भगिनी भगिनी पठतु भगिनी प्रश्नः अत्र उक्तम् आम् भगिनि प्रश्नः अनेकं ज्ञान ज्ञानयोगः इ शी प्रत्ययः केचन श्रुतवन्तः स्युः यत् सुबंत विषय प्रत्यु जी प्रथम विभक् प्रथमा विभक्तौ बहुवचने ज्यय भविष्य कथम वी जरं अस्त यूल प्रत्य सुत किं अन प्रत्यदेश मूल प्रत्यना आदेश सुबन्धविषये लिङ्गम् अनुसृत्य कुत्रचित् प्रतिपादि प्रातिपदिकस्य अंतिमवर्णं अनुसृत्य च आदेशाः विद्यन्ते नपुंसकलिङ्गे जा जषसोः शिः जश्सोः शिः जषसोः शिः इत्यनेन नपुंसकात् अङ्गात् जस् स्थाने शि आदेश अनेन नपुंसकलिङ्गे प्रथमाविभक्तौ बहुवचने इकारः आयाति वनानि वारीणि मधूनि जगन्ति कर्माणि धनुंषि मनांसि तर्हि आगमः इत् अस्ति मकारः इत्यस्य सः अतः नुं सः अन्त्यात् परः आयाति निि निट् आसौ नकारोत्तरवर्ती इकारः अन्तिमः अच् अतः तस्मात् प्रेन्नुम् आयाति तर्हि निः इति आतुः निष्पन्नः तावत् पर्याप्तं भगिनी तावत् पर्याप्तं किं करणीयम् इत्युक्ते अद्य अत्र स्थगयामि किं करणीयम् इति, इति, इति, इति, इति, इति, इति हा। ता वदामि पश्चात् पश्यतु मन्द वति फति एतादृशधातोः सन्ति खलु किं करणीयम् इत्संज्ञाकार्यं लेखनीयं पश्चात् इति अस्ति चेत् ममागमः सोपानेन लेखनीयम् अत्र पश्यतु वति इत्यत्र लिखितमस्ति खलु कथम् इति एतादृशं अत्र इत्सञ्ज्ञाकेन सूत्रेण इति वक्तव्यम् नश्चान्दपदान्तस्य छलि इत्यनेन कीदृशकार्यं भवति अनुस्वारस्य इर परसवर्णः इत्यनेन कीदृशकार्यं भवति यै इत्युक्ते अनुस्वारः इत्युक्ते किं परसवर्णः इत्युक्ते किं अवद अपदान्तः इत्युक्ते किं इति इत्युक्ते किं तद् इतितो इति किं नुम् किं तद् अत्र लबि पर्यन्तं लिखतु एतद गृहपाठः अवगतं खलु अवगतं वा पुनः एकवारं वदतु भगिनी वदि इति अस्ति खलु वदि कथं वन् इति भवति इति लेखनीयम् अत्र वदति अत्र प्रथमं प्रथमकरपत्रे इत्संज्ञाप्रकरणम् अस्ति खलु अस्मात् करपत्रात् के केन सूत्रेण इत्संज्ञा इति लेखनीयम् पश्चात् दाद्वादेशः इति द्वितीयकरपत्रमस्ति अनेन दाद्वादेशप्रकरणे यदुक्तं तेन किमपि कार्यं भवति वा इति द्रष्टव्यम् अत्र एव सत्त्वं नत्वं नुमागमः पठितम् उपधादीर्घः अग्रे आयास्यति परन्तु अत्र उपधादीर्घः न आगतं तद् पर्यन्तं लेखनीयम् यत्र कुत्रापि भवति चेत् अत्र सर्वम् इदितो धादोः इत्यस्य प्रसक्तिः अस्ति न स्थापदान्तस्य झलि तत् कथं कार्यम् करोति इति चेत् अत्र अपदान्तनकारस्य अनुस्वारादेशः भवति अनेन सूत्रेण पुनः अनुस्वारस्य ऐ परसवर्णः इत्यनेन इदानीम् अपदान्तनकारस्य यदा अनुस्वारः जायते पुनः नका अनुस्वारस्य नकारः भवति यतोहि दकारः अस्ति खलु त ध द अत्र वर्ण परसवर्णः नकारः अस्ति इति कारणात् नकारः भवति यदि परसवर्णः पकारः अस्ति चेत् प फ फ मकारः आगच्छति यत् स्मरणे भवेत् चेत् अथवा छकारः परे अस्ति चेत् छवर्गीयपञ्चमवर्णः अनुस्वारस्य स्थाने तदेव अनुस्वारः अनुस्वारस्य परसवर्णः इति उक्तं तर्हि अनुस्वारः कः भगिनी क्षम्यतां भगिनी ततः पूर्वं नश्चापदान्तस्य जलि इति अस्ति तदेकवारं पुनः वदतु पदान्तस्य नकारः कुत्र अस्ति पदान्ते अस्ति वा अपदान्ते अस्ति वा अपदान्त तादृश अवदान्तस्य नकारस्य नः इति आदौ उक्तं उस, खलु नः नच्छ इत्यत्र न ना अपदान्तस्य नच्छ पदान्तस्य परे इति उक्तम् अनुस्वारादेशो भवति इति एव सम्पूर्णसूत्रार्थः दकारः छलि वा न वा छल् प्रत्याहारे के के वर्णाः सन्ति अपि च कुत्र कुत्र प्रत्याहारः हा उक्तं यै तदपि पश्यतु कुत्र कुत्र इति अग्रिमपरिषदेव तत् सर्वं वर्तते अतः एतत् पठति चेदपि ज्ञातुं शक्यते त्रयः तृतयम् अपि अत्र उक्तमस्ति न च न च पदान्तस्य छलि अनुस्वारस्य यि परसवर्णः परसवर्णः एतत् सर्वं एकवारं पठित्वा आगच्छतु तर्हि सर्वेषां धन्यवादः नमस्काराश्च वयमत्र स्थगयामः